अथ अशीतितमोऽध्यायः वैशम्पायन उवाच ततः काव्यो भृगुः श्रेष्ठः समन्युरुपगम्यः वृषपर्वाणमासीनम् इत्युवाचा विचारयन् नाधर्मश्चरितो राजन सद्यः स्फलति गौरिव शनैरावर्त्यमाना हि कर्तुमूलानि कृन्तति पुत्रेषु न तृषु वा फलत्येव ध्रुवम् पापम् गुरुम् भुक्तमिवोदरे अधीयानम् हितम् राजन् क्षमावन्तम् जितेन्द्रियम् यथा विप्रम् रचमाङ्गिरसन्तदा अपापशीलम् धर्मज्ञम् शुश्रूषुम् अद्गृहे रतम् न अहो मामभिजानासि दैत्यमिथ्याप्रलापिनम् यथे ममात्मनो दोषम् न नियच्छस्य यदि ब्रह्मन् घातयामि यदि वा क्रोशयाम्यहम् शर्मिष्ठया देवयानि त्वयि जानामि भाद्गव यि धर्मश्च सत्यम् तत्प्रसीदतु नो भवान् इतो गच्छसि भार्गव समुद्रम् सम्प्रवेक्ष्यामो नान्यदस्ति परायणम् यद्येव देवान् गच्छेस्त्वम् माम् च त्यक्त्वा प्रविशामि हुदाशनम् शुक्र उवाच समुद्रम् वा दिशो वा द्रवतासुराः दुहितुर्नाप्रियम् सोढुम् शक्तो हन्दयिता हि मे प्रसाद्यताम् देवयानी जीवितम् यत्र मे वृषपर्वोवाच यत्किञ्चिदसुरेन्द्राणाम् विद्यते वसुभार्गव भुवि हस्तिगवाश्वम् च यत्किञ्चिदस्ति द्रविणम् दैत्येन्द्राणाम् महासुर तस्येश्वरोऽस्मि यद्येषा देवयानी प्रसाद्यताम् वैशम्पायन उवाच एवमुक्तस्तथेत्याह मृषपर्वा महाकविहे देवयान्यन्तिकंगत्वा गत्वा त्वमर्थम् प्राह देवयान्युवाच यदि त्वमीश्वरस्तात भार्गवः भिजानामि तत्तेऽहम् राजा तु वदतु स्वयम् वृषपर्वोवाच यङ्कामभिकामासि देवयानि शुचिस्मिते तत्तेऽहम् सम्प्रदास्यामि यदि वापि हि दुर्लभम् देवयान्युवाच दासीम् कन्या सहस्रेण शर्मिष्ठामभिकामये अनुमान् तत्र गच्छेत् सा यत्र दद्याच्च मेऽपिता वृषपर्वोवाच उत्तिष्ठत्वम् गच्छ धात्री शर्मिष्ठाम् शीघ्रमानय यम् च कामयते कामम् देवयानीकरोतु तम् त्यजेदेकम् कुरस्यार्थे ग्रामस्यार्थे कुलम् त्यजेत् ग्रामम् जनपदस्यार्थे आत्मार्थे पृथिवीम् त्यजेत् वैशम्पायन उवाच ततो धात्री तत्र गत्वा शर्मिष्ठाम् वाक्यमब्रवीत् उत्तिष्ठभद्रे शर्मिष्ठे ज्ञातीनाम् सुखमावः त्यजति ब्राह्मणः शिष्यान् देवयान्या प्रचोदितः सायम् कामयते कामम् सकार्योऽद्यत्वया शर्मिष्ठोवाच यम् सा कामयते कामम् करवाण्यः मद्यतम् करवाण्यः मद्यतम् यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम् मद्दोषान्मागमच्छुक्रो देवयानी, देवयानी च मत्कृते वैशंपायन उवाच ततः कन्या सहस्रेण वृता शिबिकया तदा पितुर्नियोगा त्वरिता निश्चक्रामपुरोत्तमात् शर्मिष्ठोवाच अहम् दासी सहस्रेण दासी ते परिचारिका अनुत्वान् तत्र यास्यामि यत्र दास्यति पिता देवयान्युवाच तुवतो दुहिता हन्ते याचतः प्रतिगृह्णतः स्तूयमानस्य दुहिता कथम् दासीभविष्यसि शर्मिष्ठोवाच येन केनचिदार्तानाम् ज्ञातीनाम् सुखमावहेत् अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता उवाच प्रतिश्रुते दासभावे दुहित्रावृषपर्वणः पितरौ वाक्यमब्रवीत् देवयान्युवाच प्रविशामि पुरन्तात तुष्टास्मि द्विज सत्तम अस्ति विद्याबलम् च ते उवाच एवमुक्तो दुहित्रा च द्विजश्रेष्ठो महायशाः प्रविवेशपुरम् हृष्टः पूजितः सर्वदानवैः इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि गयात्युपाख्याने अशीतितमोऽध्यायः